नारदपुराणम् पूर्वार्धम् अध्यायम् 124 सनातन उवाच अध नारदवक्ष्यामि शृणुपूर्णाव्रतानि दे यानि कृत्वा नरो नारी प्राप्नुयात् सुखसन्ततिं चैत्रपूर्णादिविप्रेन्द्रमन्वादिसमुदाहृद अस्यां सा नोदकं कुम्भं प्रदद्य समतुष्टये वैशाख्यामपि पूर्णायां दानं सर्वस्य ददे यद्यद्रव्यं ददेद्विप्रेत तदाप्नोति निश्चितं धर्मराजव्रतं चात्र कथितं तन्निशामय श्रुतान्नमुद कुम्भं च वैशाख्यां वै दद्याद्गोदानफलदं धर्मराजस्य तुष्टये अत्र कृष्णार्जिनं दद्यात् सकुरं च सश्रृङ्गकम् तिलहैः सह समाच्छाद्यवस्त्रैर्हेम्ना द्विजादये यस्तु कृष्णार्जिनं दद्यात् सत्कृत्य विधिपूर्वकं सर्वशास्त्रविदे मोददे विष्णुलोके हि यावच्चन्द्रार्कतारकम् कुम्भान् स्वच्छजल हैपूर्णान् हिरण्येन तमन्वितान् यः प्रदद्य द्विजाग्रेभ्यः स न शोचति कर्षि चिद अध ज्येष्ठस्य सूत्रेण वेष्टये चैव स शकाष्ठप्रदक्षिणं तद संप्रार्थये दैवीं सावित्रीं सुपदिव्रतां जगत्पूज्य जगन्माद सावित्री परिदैवते पत्या सहावियोगम्ये वडस्ते गुरुदे नमः इति सम्प्रार्थ्यया नारी भोजयित्वा परेऽनि स्वासिनि स्वयं भुञ्यात् सा स्यात् सौभाग्यभागिनी आषाढस्य दुपूर्णायां गोपद्मव्रतमुच्यते चतुर्भुजमहाकायं जम्बूनदसमप्रभं शङ्कचक्रकदापद्मा रमागरुडशोभितं सेवितमुनिभिर्दे वैर्यक्षगन्धर्वगिन्नरैः एवंविधं हरिं तत्र स्नात्वा पूजां समाचरेण पौरुषेणैव सूक्तेन गा गन्धाद्यैरुपचारकैः आचार्यं वस्त्रभूषाद्यैस्तोषये स्निग्धमानसः भोजयेन्मिष्टपक्वान्यैर्द्विजानन्यांश्च शक्विदः येवं कृत्वा कमला यव कृवा व्रत विप्रदलापे ऐसेना संशय कोगिला व्रतम्यत्र प्रोदीच्यूर्णिमा साररभ्य व्रत स्ना बहिर्जले पूर्णान्तं श्रावणे मासि गौरीरूपां च कोकिलां स्वर्णपक्षां रत्ननेत्रां प्रवालमुखपङ्गजां कस्तूरीवर्णसंयुक्तामुत्पन्नां नन्दने वने चूदचम्बकवृक्षस्थां कलगीदनिनादिनीं चिन्तयेत् पार्वतीं देवीं कोकिलारूपधारिणीं गन्धाद्यै प्रत्ययम् प्रार्चे लिखितं वर्णकैः पट्टे तदो व्रतान् देहैमीं वा तिलभीष्टमयीं द्विज दद्याद्विप्रायमन्त्रेण भक्त्या स स्वर्णदक्षिणां देवीं चैत्ररथोत्पन्ने कोकिलेधरवल्लभे सम्पूज्य दत्ताभिप्राय सर्वसौख्यकरीभव द्विजम् सुवासिनीस्त्रिंशदेकं वा भोजयेत्ततः वस्त्रादिदक्षिणां शक्त्या दत्वा नत्वा विसर्जयेद् एवं या गुरुदेनारी कोकिला व्रतमुत्तमं सा लभेत् सुखसौभाग्यं सप्तजन्मसुनारद अधश्रावणपूर्णायां वेदोपाकरणं स्मृतं यज्योद्भिस्तत्र कर्तव्यं देवर्षिभिधृतर्पणम् ऋषीणां पूजनं चापि स्वशाखोक्तविधानदः बृहृचैस्तु च दुर्दश्यां समगैर्भाग्रगे करे रक्षाविधानं च तथा कर्तव्यं विधिपूर्वकं सिद्धार्थाक्षतराजिकाश्च विधृदा रक्तांशुकाशे सिदा कौसुम्भे न ज ुनाथस काम्स्ये धृताः गन्धाद्युरभिपूज्य देवनिकरान् संप्रार्थ्य विष्वादिकान् बध्नीयाद्विच हस्तदप्रमुदितो नत्वा प्रकोष्ठे स्वके ततस्तु दक्षिणा दत्त्वा द्विजेभ्योऽध्यायमाचरेद् विसृज्यजऋषिन् ब्रह्मसूत्रकं रञ्जितं कुङ्कुमाद्यैश्च नवीनं निर्मितं स्वयं शक्त्या सम्भोज्य विप्राग्र्यानेगभुक्तं समाचरेद् कृदे ह्यस्मिन् व्रते विप्र वार्षिकं कर्मं दैवैदिकं विस्मृतं विधिहीनं च न कृतं सुकृतं भवेद पौष्टपद्यं पौर्णमास्यामुमामाहेश्वरव्रतं यकभुक्तश्च यस्तां तु शिवं सम्पूज्य यत्नतः कृताञ्जलिप्रार्थयेष्व करिष्ये च प्रभो एवं विज्ञाप्य देवं तु रात्रौ देवान्तिके सुत्वा उद्धाय परया नित्यस्तु कृतं मैत्रादिनित्यस्तु भस्मरुद्राक्षधृक्ततः पूजय शङ्करं सम्यगुपचारैः पृथग्विधैः बिल्वपत्रैः सुगन्धाढ्यैर्नैवेद्यैर्धूपदीपकैः ततस्त्वपवसे द्विद्वा नाप्रदोषम् पुण्यः सम्पूज्य तत्रैव रात्रौ जागरणं चरेत एवं पञ्चदशाब्दान्तं कृत्वा व्रतमदं त्रिदः वर्षे वर्षे तदुत्सर्गे विदध्याद्विधिपूर्वकम् उमायाष्टमहेशस्य सौवर्णिप्रतिमाद्वयम् हैमा रौप्या मृण्मयाश्च कडा पञ्च दशोत्तमाः तत्रैकस्मिन् कडे स्तप्यं सवस्त्रं प्रतिमाद्वयं पञ्चामृतेन संस्राप्य जलैः शुद्धैस्तदोर्चयेद उपचारैषोडशभिततः पञ्चदश द्विजन् भोजये चैव मृष्टान्नैर्दध्यात्तेभ्यश्च दक्षिणां कुम्भमेकैकमीशस्य मूर्त्याढ्यं गुरवेऽर्पयेद् एवं कृत्वा व्रतं चैव उमा माहेश्वराभिधं जायते भुवि विख्यातो निधानं सर्वसंपदं अधस्मिन्नेव दिवसे शक्रव्रतमपि स्मृतं प्रादस्नात्वा विधानेन सम्पूज्य ग्रन्थाध्यायैरूपचारैस्तु नैवेद्यानां च राशिभिः ततो निमन्त्रितान् विप्रान् सम्भोज्य विधिवद्विज समागतां तथैववान्यान् दीनानादांश्च भोजयेद येदच्चक्रव्रतं विप्रकर्तव्यं प्रतिवार्षिकं प्राज्ञान्येन धान्यनिष्पत्तिमिच्छदा आश्विने मासि पूर्णायां व्रतं कोजागराभिधं तेन स्नात्वा विधानेन स्वभवासो जिदेन्द्रियः लक्ष्मीमभ्यर्चसौवर्णीं कडे संस्थाप्यतां व्रजे मृण्मये वा सवस्तां दामुपचारैपृथग्विधं तदस्सायन्दने कालेभ्युदिदे तारकाधिवे हैमान् रौप्यान् मृण्मयान् वा कृतपूर्णान् प्रदीपयेद् लक्ष्यं तदर्थमयुधं सहस्रं शतमेव वा खृदशर्करसम्मिश्रं वापि हृदशर्करसम्मिश्रं विपाच्य बहु पायसं बहुपात्रेषु संस्थाप्य कौमुद्यां सीददी धीतेः या ममात्रे ग्या लक्ष्मी तद्विनिवेदयेत् तत् सम्भोजये तेन विप्रभक्त्या ततश्च तैः सहैव जगा जागरं नृत्यगीतसुमङ्गलैः तदो रुणोदये स्णत्वा तं मूर्तिं गुरवेर्पयेद अस्यां गात्रौ महालक्ष्मीर्वरा भयकराम्भुजा निशीते चरते लोके को जागर्तिं धरा करे तस्मै वित्तं प्रयच्छामि जाग्रते वर्षे वर्षे कृतं चैतद्व्रतं लक्ष्मीप्रदोषणम् समृद्धिमैकिकं दद्याद् द्वे कान्ते पारलौकिकीं पूर्णिमायां तु कुर्यात् कार्तिकदर्शनं विप्रत्वलब्धये भूय सर्वशत्रुजयाय च अत्रैव दीपदानेन विधेयस्त्रिपुरोत्सवः निशामुके द्विजश्रेष्ठ सर्वजीव सुखावहः क्रीडापदङ्गमशकाश्च वृक्षाजले ये विचरन्ति जीवाः दृष्टा प्रदीपान्नहितेऽपि जन्मि न पुनश्च मुक्तिं हि लभन्तये भज अत्र चन्द्रोदये विप्रसम्भूज्या कृत्तिकाश्च षट् कार्तिकेयत्तथा गङ्गी वरुणश्च कुदाशनः कन्दपुष्पैस्तथा दूपदीपैर्नैवेद्ये विस्तरैः परमान्नैफलैः शाखैर्वन्निब्राह्मणतर्पणैः एवं देवान् समभ्यर्थ्य दीपो देयो गृहाद्बहिः दीपोपान्ते तदा गर्त चतुरस्रोमनोहरः सदुदं श्यां गुलकार्य सेच्यश्चदनवारिणः गर्वां क्षीरेण सम्पूर्य हैमं तत्र विनिक्षिपेद मुक्तानेत्रसमायुक्तं मत्स्यं सर्वाङ्गशोभनं महामत्स्यायजनम युधिमन्त्रं समुच्चरन् गन्धाध्यैस्तत्र सम्पूज्य द्विजाय प्रतिपादयेद क्षीरसागरदानं देमयोक्तं द्विजसत्तम दानस्यास्य प्रभावेण मोददे हरिसन्निधौ अत्र कृत्वा वृक्षोत्सर्गं व्रतं नक्तं च नाद रुद्रलोकमवाप्नोति नात्रकार्याविचारणा मार्गशीर्ष्यां पूर्णिमायाम् स्वर्णाढ्यं लवणाटकं देहं विप्राय शान्ताय सर्वकामसमृद्धये इदं जगत्पुरा लक्ष्म्या त्यक्तमासीत्तदोपरिः पुरन्दरश्च सोमश्च तथा तिष्ठो बृहस्पतिः पञ्चैदे कुष्ययुक्तायां पौर्णमस्यां जगद्बलाद अलङ्कृतं पुनश्चखुः सौभाग्योत्सवकेलिभिः तस्मान्नरपुष्ययोगे सर्वसौभाग्यवृद्धये गौरसर्षपकण्ठेण समालभ्यत्वकान्तनं स्नायात् सर्वौषधिजलैर्धारये च दृष्ट्वा जमङ्गलं द्रव्यम् पृष्ट्वा नत्वा तदोचयेद् हरिचक्रेन्दु पुष्यज्ञान् गन्धाद्यरूपचारकैः विधायकोमं विप्रांश्च तर्पयेत् पायसाशनैः यदत् कृत्वा व्रतं विप्र रमाप्रीदिविवर्धनम् अलक्ष्मीनाशनं चैव मोददेहपरत्र च पौर्णम् आस्यां तिलकार्पाशकम्बलं रत्नानि कञ्जुकोष्णीष पादत्राणानि वा धनं दत्वा प्रमोददे स्वर्गदानं वित्तानुसारदः यत्त्वत्र शङ्करं देवं पूजयेद्विधिपूर्वकं स्वश्वमेधबलं प्राप्य विष्णुलोके महीयते फाल्गुने पूर्णिमायां तु मदम् सञ्जयं सर्वकाष्ठानामुपदानां च कारयेद् तत्र अग्निविधिवधृत्वा रक्षोघ्नैर्मन्त्रविस्तरैः अदृक्पाभयसं त्रै कृत्वा त्वं कोलिबालिशैः अध त्वं पूजयिष्यामि भूदे भूदिप्रदा भव यदि मन्त्रेण सन्दीप्य काष्ठाधिक्षेपणैस्ततः कोलिकाराक्षसि च यं प्रह्लादभयदायिनि तदस्तां प्रदहन्त्येवं काष्ठाद्यमङ्गलैः संवत्सरस्य दाहोऽयं कामदाहो मदान्तरे इति जानीहि विप्रेन्द्र लोके स्थितिरनेकधा पक्षान्ते द्वे पृथक् देवै दैवे तदो मा व्रतमुच्य दे पृथक् तृणुष्व मे विप्रपितृनामधिवल्लभं चैत्र वैशाखयोस्तत्र दर्शे पितृसमर्चनं पार्वणेन विधानेन श्राद्धं वित्तानुसारदः द्विजानां भोजनं दानं गवादीनां विशेषधः सर्वमासेश्वमायां वै बहुपुण्यप्रदं यदः ज्येष्ठा मायां व्रतं विधानं ज्येष्ठपूर्णाव विहापि परिकीर्तितं शुचौनभगि भाद्रजमासे पूर्णान्तिके द्विज पितृश्राद्धं दानहोम सुरार्चानन्द्यमश्नुदे भाद्रदर्शे परान्नेदु तिलक्षेत्रसमुद्भवन् विजिञ्जिमनुनामन्त्र्य हुं फट् छिन्नान्कुशान् द्विज सर्वदा सर्वकार्येषु योजये दे गदापरान् विशामायां विशेषेण पितॄणां श्राद्धदर्पणं विधेयं जाह्नवितो ये मुक्तितं च गयास्ते ऊर्जा मायां दीपदानं देवागारगृहेषु च नद्यारामदडागेषु समर्चनं तथा लक्ष्म्या स्वर्ण रौप्ये कृता कृते द्यूतं च वर्षफलतं जये चाभि परा जये गवां पूजा प्रविहिता शृङ्गाद्यङ्गानुरञ्जनैः यवसान्नादिदानैश्च नमस्कारप्रदिक्षिणैः मार्गेऽपितृपूजास्याद्धैर्ब्राह्मणभोजनैः ब्रह्मचर्यादिनियमयुर्जपः होमार्चनादिभिः पौषे माके च विप्रेन्द्रपि दृश्राद्धं फलाधिकम् अमायां कर्णपादार्कयुक्तायां दुगयाधिकं फाल्गुनेन केवलं श्राद्धं द्विजानं भोजनं तदा दानादि सर्वफलदं दर्शे सोमेऽधिकं फलं युद्धम् संक्षेपथप्रोक्तं तिथिकृत्यं मुने तव सर्वत्रापि विशेषोऽस्ति स पुराणान्तरे स्थितः इति श्रीमन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितपौर्णमस्य मा मा माभाष्याव्रतकथनं नाम चतुर्विंशत्यधिकशततमोऽध्यायः ओम्